अथाष्टाविंशः सर्गः विहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह करस्याप्यभवत्रासो दृष्ट्वा रामस्य विक्रमम् स दृष्ट्वा राक्षसम् सैन्यमविषह्यम् महाबलम् हतमेकेन रामेण दूषणस्त्रिशिरा अपि तद्बलम् हत भूयिष्ठम् विमनाः राक्षसः आससादखरो रामम् नमु यथा विकृष्य बलवच्चापम् नाराचान् रक्तभोजनान् खरश्चिक्षेप रामाय क्रुद्धानाशीविषानि वा जयाम् विधन्वन्सु बहुशः शिक्षयास्त्राणि दर्शयन् चचारसमरे मार्गाच्छरैरथगतः खरः स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः पूरयामास तम् दृष्ट्वा रामोऽपि सुमहद्धनुः ससायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः नभश्चकाराविवरम् पर्जन्य इव वृष्टिभिः तद्बभूवशितैर्बाणैः खररामविसर्जितैः पर्याकाशमनाकाशम् सर्वतः शरसङ्कुलम् शरजालावृतः अन्योन्यवधसम्रम्भादुभयोः सम्प्रयुध्यतोः ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः आजघानरणे रामम् स्तोत्रैरिव महाद्विपम् तम् रथस्तम् धनुष्पाणिम् राक्षसम् पर्यवस्थितम् ददृशः सर्वभूतानि पाशहस्तमिवान्तकम् हन्तारम् सर्वसैन्यस्य पौरुषे परिश्रान्तम् महासत्वम् मेने रामम् खरस्तदा तम् सिंहमिव विक्रान्तम् सिंह विक्रान्तगामिनम् दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगम्यथा ततः सूर्यनिकाशेन रथेन महता खरः आससादाथ तम् रामम् पतङ्ग इव पावकम् ततोऽस्य सशरम् चापम् वुष्टिदेशे महात्मनः खरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम् स पुनस्त्वपरान् सप्तशरानादायमर्मणि द्विजघानरणे क्रुद्धः शक्रा शनिसमप्रभान् ततः शरसहस्रेण राममप्रतिमौजसम् अर्दयित्वा ननादसमरेखरः ततस्तत्प्रहतम् बाणैः खरमुक्तैः सुपर्वभिः पवातकवचम् भूमो रामस्यादित्यवर्चसम् सशरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः रराजसमरे रामो विधूमोऽग्निरिवज्ज्वलन् ततो गम्भीरनिर्ह्रादम् रामशत्रुनिबर्हणः चकारान्ताय सरिपोः सज्जमन्यन्महद्धनुः सुमहद्वैष्टवन्यत्तदतिसृष्टम् महर्षिणा वरम् तद्धनुरुद्यम्य खरम् समभिधावत कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः चिच्छेदरामः सङ्क्रुद्धः समरे ध्वजम् सदर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः सूर्यो देवतानामिवा ज्ञया तम् चतुर्भ्यः विव्याध हृदि मर्मज्ञो मातङ्गमिवतो मरैः स रामो बहुभिर्बाणैः विद्धो कार्मुकनिःसृतैः विद्धो रुधिरसिक्ताङ्गो बभूवरुषितो भृशम् सधनुर्धन्विनाम् श्रेष्ठः सङ्गह्य परमाहवे मुमोच परमेश्वासः षक्षरानभिलक्षितान् शिरस्येकेन बाणेन द्वाभ्याम् बाह्वो त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघानः ततः पश्चान् महातेजा नाराचान् भास्करोपमान् जघानराक्षसङ्क्रुद्धस्त्रयोदश शिलाषितान् रथस्य द्वादशेन तु बाणेन खरस्य स शरम् धनुः छित्त्वा वज्रणिकाशेन राघवः प्रहसन्निव त्रयोदशेनेन्द्रसमो विभेदसमरेखरम् प्रभग्रथन् वा विरथो हता श्वो हतसारथिः गदा पाणिरवप्लुध्य खरस्तदा तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च अपोजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टाविंशः